श्रीहरे नमः अथ चतुरशीतितमोऽध्यायः श्रीशुक उवाच श्रुत्वा प्रतासुभलपुत्र्यतयाज्ञसेनी मातव्यतशितिपपत्न्य प्रणयानुबन्धं सर्वा विसिुरलमश्रुकलाकुलाक्षयः इति सम्भाषमाणासु स्त्रिभीक्ष् स्त्रिशो द्वैपायनो नारदश्चच्छवनो देवलोसितः विश्वामित्रसतानन्दो भरद्वाजोत गौतमः रामस्सशिष्यो भगवान् वसिष्ठो गालवो भृहुः पुलस्त्यकश्यपो दृश्च मार्कण्डेयो बृहस्पतिः द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तदाङ्गिराः अगस्त्यो याज्ञवल्क्यश्च वामदेवादयो परे दृष्ट्वा सकसोत्थाय प्रगासीनान्रपादयः पाण्डवा कृष्णरामौ प्रणेमुर्विश्ववन्दितान् दानानर्चुर्यथा सर्वे सह रामोऽश्च्युतोर्चयत् स्वागतासनपाध्यार्घ्य माल्यधूप अनुलेपनैः उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः सदशस्तस्य महतो यदवाचो नु श्रीभगवानुवाच अहो भयं जन्मभृतो लब्धं कात्स्न्येन तत्फलं देवानाबवितुष्प्रापं यत् योगेश्वरदर्शनं किं स्वल्पतपशां नृणामर्चायां देवचक्षुषां दर्शनस्पर्शनप्रश्न प्रक्वबाधार्चनादिकम् न ह्यं मयानि तीर्थानि न देवामृच्छिलामयाः तेन पुनन्द्युरुकालेन दर्शनादेव साधवः नाग्निर्न सूर्यो न च चन्द्रकतारक न भूर्जलं कं स्वसनो तवाङ्मनः उपासिता भेतकृतो हरन्ध्यगं विपश्चितो घ्नन्ति मुहूर्तसेवया यत्मुुदिगुणपेतृधा के स्वी कलत्रिशु भौम युजती है यथबुद्धि नर् चेजेशोक श्रीसुख उवाच निसं भगवतः कृष्णस्याकुण्ठमेधसः वचो दुरन्वयं विप्रास् तूष्णीमासन् प्रमध्यः चिरं विमृश्य मुनय ईश्वरस्येषितव्यतां जनसङ्ग्रह इत्योच्चोऽस्मयन्दस्तं जगद्गुरुं मुनयवोचू यन्मायया तत्त्वविधुत्तमा वयं विमोहिता विश्वश्रुजामधीश्वराः यदीशितव्यायति गूटीहया अहो विचित्रं भगवद्विचेष्टितम् अनीहयेधुदैक आत्मना सृजत्यवत्यति भौमर्हि भूमेर्बहुनामरूपिणी अहो विभुं नश्चरितं विडम्बनम् अथापि स्वजनापि गुप्धये बिभर्षि सत्वं कलनिग्रह कलनिग्रहाय च स्वलीया सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ब्रह्म ते हृदयं शुक्लं तपस्वाध्याय संयमह्ये यत्रोपलब्धं सद्व्यक्तम् अव्यक्तं च ततः परं तस्माद्ब्रह्मकुलं ब्रह्म शास्त्रयो नेस्त्वमात्मनः सभाजयसि सद्दाम अध्यनो नो जन्म सापल्यं विद्यायास्तपसो दृशः त्वयि सङ्गम्यसद्गत्या यदन्तश्रेयसां परः नमस्तस्मै भगवते कृष्णाय अगुण्ठमेधसे स्वयोगमाययाश्चन्नमहिम्ने परमात्मने नयं विधन्त्यमी भूपा एकारामाश्च वृष्णयः मायाजवनिकाच्छन्तम् आत्मानं कालमीश्वरम् यथाशयानः पुरुष आत्मानं गुणतत्त्वधृग नाम मात्रेन्द्रिया भातं न वेदरहितं परम् एवं त्वा नाम मात्रेषो विषयेष्विन्द्रिये यहया मायया विभ्रमच्चित्तो तस्याद्यते तदृशिमाङ्ग्रिमघौकमर्श तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः उत्सिक्तभक्त्युपहदाशयजीवकोश आपुर्भवद्गतिमथोनुग्रहाण भक्तान् श्रीशुक उवाच इत्यनुज्ञाप्यधासार्हं धृतराष्ट्रं युधिष्ठिरं राजर्षे स्वाश्रमाद्गन्तुं मुनयोधति रे मनः तद्वीक्षतानुभौ रज महायसाः प्रणम्यचोपसङ्ग्रह्य भभाषेदं सुयन्त्रितः वसुदेव नमो वः सर्वदेवेभ्य ऋषय श्रोतुमर्हता कर्मणा कर्म निर्हारो यथाशान्यस्तदुच्छतां नारत उवाच नातिश्चित्रमिदं विप्रा कृष्णं मत्वार्भकं यन्नः आत्मनः सन्निकर्षो हिमर्त्यानाम् अनादरणकारणं गाङ्कं हित्वा यतान्याम्भस्तत्रत्यो याधिशुद्धये यस्यानुभूतिकालेन लयोत्पद्याति नाश्य वै तं क्लेशकर्मपरिपाकगुणप्रवाहे अव्याहतानुभवमीश्वरमद्वितीयं प्राणादिभिस्वविभवैरुपगूटमन्यो मन्येत सूर्यमिव मेघहिमोपराघैः अतो चुर्मुनयो राजन् आभाष्य आनगधुन्धुभिं सर्वेषां शृण्वतां तथैवाश्च्युतरामयोः कर्मणा कर्म निर्हार एष साधुनिरूपितः यच्छाय जेत्विष्णं सर्वज्ञेश्वरम्म चिस्तस्योपशमोऽयं वै कविभिश्चास्त्रचक्षुषा दर्शितः सुखमो योगो धर्मश्चात्ममुधावकः अयं स्वस्त्ययनः पन्थाद्विजाते गृहमेदिनः यः तेन शुक्ले निज्येत पूरुषः वित्तैक्षणां यज्ञतानैर्गृहैर्धारसुतैक्षणाम् आत्मलोकैक्षणां देवकालेन विसृजेद्भुतः ग्रामे त्यक्षतैक्षणा सर्वे युयुर्धीरास्थ भोवनं ऋणैस्त्रिभेद्भिजो जातो देवर्षिपितॄणां प्रभो यज्ञात्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पते त्वं त्वद्यमुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते यज्ञैर्देवर्णमुन्मुच्य निर्वृणो शरणो भव वसुधेव भवान्नूनं भक्त्या परमया हरिं जगतामीश्वरं प्राश्च सध्यत्वा पुत्रतां गतः श्रीशुक उवाच इदी दत् वचनं श्रुत्वा वसुधेवो महामनाः तान् ऋषीनृत्विजो वव्रे मूर्धानं यप्रसाद्य तयेन ऋषयो राजन्वृता धर्मेण धार्मिकम् प्रवृत्तायां वृष्णयः पुष्करस्रजः स्नाता तन्मिष्य मुदिताकवास दीक्षा सा जम्मिता वस्तु नेमदंग पटक संगन का सुष्टु सूतम आगताव्य मभ्यषिञ्चन् विधिवधक्तमभ्यक्तमृद्विजः पत्नीभिः अष्टदशभिः सोमराजमिवोडुभिः ताभिर्दुकूलवलयेर्हारनूपुरकुण्डलैः स्वलङ्कृताभिर्विभौ दीक्षितो जिनसंवृतः तस्य विजो महाराजरत्नकौशेयवास सदा रामश्च कृष्णश्चै स्वैर्भन्तुभिरन्त्विधा रेजतुस्व सुतैर्धारैर्जीवेसौ स्वविभूतिभिः ईजेऽनुयज्ञम् वितिना अग्निहोत्रादिलक्षणैः प्रकृतैस्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् अथर्त्विग्भ्यो धात्काले यथां नाथं स दक्षिणाः स्वलङ्कृतेभ्योऽलङ्कृत्य गोपूकन्यामहाधनाः पत्नीसं याजवाभृत्यैश्चरित्वा ते मकर्षयः सष्णुरामहृदे विभ्रा यजमानपुरःसराः स्नातो स्नातोऽलङ्कारवासां सीवन्दिभ्यो धात्तथा श्रियः ततस्वलङ्कृतो वर्णाना स्वभ्योन्नयेन पूजय बन्तुन् सधारान् ससुधान् पारिबर्ह्येण भूयसा विदर्पकोशलगुरोन् काशिके श्रयशृञ्जयान् सदस्य ऋत्विक् सुरगणानृभूत पितृचारणान् श्रीनिकेतमनुज्ञाभ्यः संसन्तः प्रययुः क्रतुं धृतराष्ट्रे अनुजः पार्था भीष्मो द्रोणप्रतायमो नारदो भगवान् व्यास सुहृत्सम्भन्ति भं दवाह बन्तुन् परिष्वज्जयतुन् ययुर्विरककृश्रेण स्वदेशांश्चापरे जनाः नन्दस्तु सखगोपालैर्बृहत्या पूजयार्चितः कृष्णरामोऽग्रसेनाद्यैर्न्यवात्सीद्बन्तु वत्सलः वासुदेवोज्ञशोत्तीर्यमनोरथमहार्णवं सुहृत्प्रतप्रीतमनानन्दमाहकरे स्पृशन् वसुधेव उवाचां भ्रातरी सकृतः पाशेर्नणां यस्नेहसंज्ञितः तं दुस्त्यजमहं मन्ये शुराणामपि योगिनाम् अस्मात् स्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः मैत्यर्पिता फला वापि न कुशलं भ्रातर्वो नाचरामिहे अधुना श्रीमदान् मा राज्य श्रीरभूत्पुंसश्रेयस्कामस्य मानधा स्वजनानुदभन्धून्वा न पश्यन्ति ययान्धृक् श्रीशुक उवाचा एवं सौहृतवैथिल्यचित्त आनगधुन्दुभिः नन्दस्तु शक्युः प्रियकृत् प्रेम्णा गोविन्तरामयोः अद्य स्व इति मशां स्त्रीन् यदुभिर्मानितोऽवसत् ततः कामै पूर्यमाणः सव्रजः सखबान्धवः वसुदेवोग्रसेनाभ्यां कृष्णबुद्धव दत्तमादाय पारिभर्हं यापितो यदुबैर्ययो नन्दो गोपश्च गोप्यश्च गोविन्दचरणाम्बुजे चरणां पुनर्हर्तुम् मनक्षिप्तं पुनर रां ययुः बन्धुक्षु प्रतियातेषो वृष्णय कृष्णदेवताः वीक्षप्रावृषमासन्नाम् ययोर्द्वारभीं पुनः जनेप्य कथयाञ्चक्रोर्यधुदेवमहोत्सवं यथासीत्तीर्थयात्रायां सुहृत्सन्दर्शनाधिकम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते तीर्थयात्रानुवर्णनं नाम चतुरशीतिदमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमघराजकी जय